भूते येषु त्वदैकस्मृति समधिगतौ नाधिकारो विना चेत् त्वत्प्रेम त्वत्समैषि जलमदिषु कृपा दिक्षु भूयादुपेक्षा वार्चायाम् वासमर्चा कुसुमूदर श्रद्धया वर्तता मे त्वत्संसेनि ततापि द्रुतमुपलभते